हरि श्री श्रीसीतारामचन्द्रभ्य नमः अथ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे अष्टाविंश सर्गः शुकेन सुग्रीव सचिवानाम् मैन्द द्वितीय तयोः हनुमतः श्रीरामस्य लक्ष्मणस्य विभीषणस्य सुग्रीवस्य च परिचयम् दत्त्वा वानरसैन्यसङ्ख्यानाम् सङ्ख्याया निरूपणम् च णस्यैव च श्रुत्वा रावणम् राक्षसाधिपम् बलमादिशत् सर्वम् शुको वाक्यम् अथ ब्रवीत् स्थितान् पश्यसि यान् एतान् मत्तानिव महद्विपान् न क्रोधान्निव गङ्गेयान् सालान् हैमेवतानिव एते दुष्प्रसहाराजन् बलिनः कामरूपिणः निश्चेदान्व युद्धे देव पराक्रमः येषाम् कोटि सहस्राणि नव पञ्च च सप्त च तथा शङ्कुसहस्राणि तथा वृन्दशतानि च एते सुग्रीव सचिवाः किष्किन्धानिवया तदा हरयो देव देव गन्धर्वै उत्पन्नाकामरूपिणः यतो पश्चसि तिष्ठन्तु कुमारो देवरूपिणौ मैन्दश्च द्विविधश्चैव ताभ्याम् नास्ति समो युधि ब्रह्मणा समनुज्ञातौ अमृत प्राशीदौ भव आशन्ते ते एतो मर्दितुमोजसा यन्तु पश्यसि तिष्ठन्तम् प्रभिन्नमिव कुञ्जरम् यो बलात् क्षोभयेत् मुद्रम् अपि वानरः एकोऽभिगन्तालङ्गायाम् वैदेह्यास्तव च प्रभो एनं वानरं पुरा दृष्टम् वानरम् पुनरागतम् ज्येष्ठ केसरेण हनुमान् इति विख्यातो लङ्घितो येन सागरः कामरूपो हरिश्रेष्ठो बल रूपय समन्व अय गास्कर बाल बुभुक्षिताजन सहसू अध्य आहरिष्या न मेक्ष या निश्चि मनसा पुप्लो वे बलदर्पितः अनाधृश्य तमम् देवम् अपि देव शिराक्षसै अनासाद्येव पतितौ भास्करो दयनेगिरौ पतितस्य कपेयस्य अनुरेखा शिलातले किञ्चिद् भिन्ना धृडनु हनु मा नेश वै सत्यम् आगमयोगेन ममैष विदितो हरिः नास्य शक्यं बलं रूपम् प्रभावो वानुभाषितुम् एष शंसते लङ्काम् एको मथितुमोजस येन जाज्वल्यते सो वै धूमकेतु त्वाय त्वा वाद्य वै लङ्कायां निहितश्चापि कथं विस्मरते कपिम् यश्चेषोऽनन्तरशोर श्यामः पद्मनिभेक्षणः इष्टाकोणामतिरथो लोके विश्रुतपौरुषः यस्मिन्न चलते धर्मो यो धर्मं वर्तते, यो ब्राह्ममस्त्रं वेदाश्च वेद वेद विदाम्बर यो भिन्द्याद्गनम् वाणी मेदिनीं धारयेत् यस्य मृत्योरिव क्रोध चक्रस्य वः पराक्रमः यस्य भार्या जनस्थानात् सीता चापि रुता तया स एष राम साम्राज्योद्धुम् तमभिवर्तते यस्येष दक्षिणे शुद्ध जाम्बुन लभ विशाल साम्राक्षो नीलकुञ्जित मूर्धजः एषो हि लक्ष्मणो नाम धातुप्रिय हिते रतः न ये युद्धे च कुशल सर्वशस्त्र मृताम्बरः अमर्षि दुर्यो जेता विक्रान्तश्च जयी बली रामस्य दक्षिणो बाहु नित्यम् प्राणो बहिश्चरः न च राघवस्यार्थे जीवितम् परिरक्षति एषेवाशन्स ते युद्धे नियन्तुम् सर्वराक्षसान् यस्तु सव्यमसौ पक्षम् रामस्याश्रित्य तिष्ठति रक्षोगण परीक्षिप्तो राजा ये च विभीषणः श्रीमता राजराजेन लङ्कायामभिषेचितः तामसो प्रतिसंरब्धो युद्धायैषोऽभिवर्तते यन्तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् विवाचलम् सर्वशाखा मृगेन्द्राणाम् भक्तारमभितौजसम् तैजता यशसा बुद्ध्या बलेनाभीजनेन च यः कपि नदी भद्रा पर्वतः किष्केन्धां यस्त मध्यास्ते गुहां सगन पर्वत पर्वतदुर्गम्याम् प्रधाने सह यूथ पै यस् एषा काञ्चनी माला शोभते शतपुष्करः कान्ता देव मनुष्याणाम् यस्यां लक्ष्मीः प्रतिष्ठिता एताम् मालाञ्च तारां च कपिराज्यं च शाश्वतम् सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः शतं शत सहस्राणाम् कोटिमाहूमनीषिणः शतम् कोटि सहस्राणाम् शङ्कुरित्यभिधीयते शतं शङ्कु सहस्राणाम् महाशङ्कु इति स्मृतः महाशङ्कु सहस्राणाम् शतम् वृन्दम् योच्यते शतम् वृन्दः सहस्राणाम् इति स्मृतम् महावृन्द सहस्राणाम् शतं पद्मम् योच्यते शतं पद्म सहस्राणाम् महापद्मम् इति स्मृतम् महापद्म सहस्राणाम् शतं खर्वम् योच्यते शतं खर्व सहस्राणाम् महाखर्वम् इति स्मृतम् महाखर्व सहस्राणाम् समुद्रम् अभिधीयते शतं समुद्र सहस्रम् ओघ इत्यभिधीयते शतमोघ सहस्राणाम् महोघ इति विश्रुत एवं कोटि सहस्रेण शङ्कूनां च शतेन च महाशङ्कु सहस्रेण तथा वृन्दशतेन च महावृन्द सहस्रेण तथा पद्मशतेन च महापद्मसहस्रेण तथा कर्वशतेन च समुद्रेण च तेनैव महौघेन तथैव च कोटि कोटिमहौघेन समुद्रे सुदृशेन च विभीषणेन वीरेण सचिवै परिवारितः सुग्रीवो वानरेन्द्रस्त्वाम् युद्धार्थम् अनुवर्तते महबले वृतो नित्यम् बल पराक्रमः इमां महाराज समीक्ष वाहिनीम् उपस्थितां प्रज्वलित गृहोपमारम् तथा प्रयत्नः परमो विधीयताम् यथा जयश्चान्नपर पराभवे इत्याखे श्रीमद् रामायणे वाल्मीकि अधिकारि युद्धकाण्डे अच्चाविञ्च सर्गः श्रीसीतारामचन्द्रार्वणमस्तु